30 ब्रह्मुराण पूर्वभागंध्या तटी यज्ञप्रवर्तनम शांशाच कथम तयदागमुखे यवर्तन पूर्व स्वयंभुव सर्गे यथवर्तच्रूहि मे अन्तर्हितायां सन्ध्यायां सार्धं कृतयुगे न वै कालाख्यायां प्रवृतायां प्राप्ते त्रयदायुगे तदा औषधीषु च जादासु प्रवृत्ते वृष्टिसर्जने प्रतिष्ठितायां वार्तायां गृहाश्रमपरे पुनः वर्णाश्रमव्यवस्थानम् कृधवं तश्च संख्यया सम्भारांस्तांस्तु मम्भृत्य कथं यज्ञप्रवर्तितः ये दच्छ्रुत्वा ब्रवीत्सुदश्रूयतां शांशपायने यथात्रयुगमुखे यज्ञस्य स्यात्प्रवर्तनं पूर्वं स्वयम्भुवे सर्गे तद्वक्ष्याम्यानुभोव्यतः अन्तर्हितायां सन्ध्यायां सार्धं कृतयुगेन तु कालाख्यायां प्रवृत्तायां प्राप्ते त्रयदा युगे तदा औषधीषु च जादासु प्रवृत्ते वृष्टिसर्जने प्रतिष्ठितायां वार्तायां गृहाश्रमपरेषु च वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांस्तु संहतान् मन्त्रांस्तान्यो जयित्वाध इहामुत्रचकर्मसु तदा विश्वभुगिन्द्रश्च यत्नं प्रावर्तयत् प्रभुः दैवतैः सहितैः सर्वैः सर्वसंभारसम्भृतैः तस्याश्वमेधे वितते समाजग्मुर्महर्षयः यजन्तं रूचु सर्वे समागदाः कर्मव्यग्रेषु ऋत्विक्षु संदेय यु साममगेथ सुवर परक्रातेषु लघु शु्यध्युवृषु जेध्यु तथा पशुगण च हव्यन हूयमनेशु च सर्व यक्षुक्र तदाइन्द्रिियात्मकिन त्यज तदावक ये अध्वर्यवः प्रैषकाले व्युद्धिदा वै महर्षयः महर्षयस्तु तान् दृष्ट्वा दीनान् पशुगणांस्तदा प्रपच्चुरिन्द्रं सम्भूय कोयं यज्ञविधिस्तव अधर्मो बलवानेष हिंसा धर्मेप्सया ततः ततः पशुवधश्चैष तव सुरोत्तमा अधर्मो धर्मकादाय प्रारब्धः पशुहिंसया नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते आगमेन भवान्यज्ञं करोदु यदि विधिदृष्टेन यज्ञेन धर्मेणा व्यपसेतुना यज्ञबीजयसुरश्रेष्ठयेषु हिंसा न विद्यते त्रिवर्षं परमं कालमुषितैरप्ररोहिभिः येष धर्मो महाप्राज्ञविरञ्चिविहितः पुरा एवं विश्वभुगीन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः तदा विवादस्सुमहानीन्द्रस्यासीन्महर्षिभिः जङ्गमस्तावहैकैर्हि यष्टव्यमिति चोच्यते ते दुःखिन्नाविवादेन तत्त्वमुक्त्वा महर्षयः सन्धाय वाक्यमिन्द्रेण पप्रच्छुके चरं वस्तुसु सः प्राज्ञकथं दृष्टस्त्वया यज्ञविधिर्नृप औत्तानपादे प्रब्रूहि संशयं नोऽनुदप्रभो श्रुत्वा वाक्यं वसुस्तेषामविचार्य बलाबलम् शास्त्र वेद्शास्त्रमुस्मृत्यज्ञतवाच यथोपनी कोवाच पार्थिव यव्यम पशु्यध बीजल हिंसास्वभावो यज्ञस्य इति मे दर्शनागमौ यदेहदेवता मन्त्रा हिंसा लिङ्गा महर्षिभिः दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः तत्प्रमाण्यान् मया चोक्तं तस्मात् स प्राप्तुमर्हथ यदि प्रमाणं तान्येव मन्त्रवाक्यानि वैद्विजाः द्विजाः तथा प्रवर्ततां यज्ञो वचः एवं कृतोत्तरास्ते वै युक्तात्मानस्तपो धनाः अवश्यभाविदं दृष्ट्वा तमथो वाग्यथाभवन् वसुर्भूत्वा रसातल प्रवीवेशतल ऊर्ध वसुर्भूतलोभव वसुधातलवासी तेन वाक्य सोबवदर्माण राजा राज वसुरथो गवाच्यमेघन बहुज्ञेनापि संशये बहुद्वारस्य धर्मस्य सूक्ष्मा दूरतरा गतिः तस्मान्न निश्चयाद्वक्तुं धर्म शक्यस्तु केनचिद् देवानृषीनुपादाय स्वायम्भुवं मनुम् तस्मादहिंसाधर्मस्य द्वरमुक्तं महर्षिभिः ऋषिकोटिसहस्राणि स्वतपोभिर्दिवं ययुः तस्मान्नदानं यज्ञं वा प्रशंसन्तिमहर्षयः उञ्छमूलफलं शाकमुदपात्रं तपो धनाः ये दत्त्वा विभवदस्वर्गे लोगे प्रतिष्ठिताः अद्रोहश्चाप्यलोभश्च तपो भूतदयादमः ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमाधृतिः सनातनस्य धर्मस्य मूल मे दद्दुरासदम् श्रूयन् देहि तपःसिद्धा ब्रह्मक्षत्रादयोनखाः प्रियव्रदोतनपादौ ध्रुवो मेधातिथिर्वसुः सुधामाविरजाश्चैव शङ्कः पाण्ड्यज एव च प्राचीनबर्हि पर्जन्यो हविर्धानादयो नृपः ये ते बहवस्वैस्तपोभिर्दिवङ्गदाः राजर्षयो महासत्वा येषां कीर्तिप्रतिष्ठिता तस्माद्विशिष्यते यज्ञातपःसर्वैस्तु कारणः ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा तस्मान्नान्वेदि तत् यज्ञस्तपोमूलमिदं स्मृतं द्रव्यमन्त्रात्मको यज्ञस्तपस्त्वनशनात्मकं यत्नेन देवानाप्नोति वैराज्यं तपसा पुनः ब्राह्मं तु कर्म सन्न्यासाद्वैराग्यात् प्रकृतेर्जयं ज्ञानात्प्राप्नोति कैवल्यम् पञ्चैता गतय स्मृताः एवं विवादसुमहान्यज्ञस्यासीत् प्रवर्तने देवतानां ऋषीणाञ्च पूर्वस्वयं भुवेन्दरे ततस्तमृषयो दृष्ट्वा कथं धर्मबले न तु वसोर्वाक्यमनाधृत्य जग्मुः सर्वे यथा गतम् गदेशु गदेषु देवा देवायज्ञं समाप्नुवन् यज्ञप्रवर्तनं ह्येवमासीत् स्वयं भुवेन्दरे ततः प्रभृति यज्ञोयं युगैः सह विवर्तितः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये शङ्खपादे यज्ञप्रवर्तनं नाम त्रिंशत्तमोऽध्यायः ओ